यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीं विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा अलोहं निशितं शस्त्रं शरीरपरिकर्तनं यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं विषः कक्षघ्नः शिशिरघ्नश्च महाकक्षै विलोकसः चात्मानं यो रक्षति स जीवति न चक्षुर्वेत्ति दिशः ना, ना, ना धृतिर्बुद्धिमाप्नोति प्रबोधितः अनाप्तैर्दत्तमादत्ते नरः श्वाविच्छरणमासाद्य प्रमुच्येतमुदाशनात् चरन्मार्गान् विजानाति नक्षत्रैर्विन्दते दिशः आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते एवमुक्तः प्रत्युभाच धर्मराजो युधिष्ठिरः विदुरम् विदुषां श्रेष्ठम् ज्ञातमित्येव पाण्डवः अनुशिक्ष्यानुगम्यैतान् कृत्वा चैव प्रदक्षिणम् पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ निवृत्ते विदुरे भीष्मे पौरजने तथा अजातशत्रुमासाद्य कुन्तीवचनमब्रवीत् क्षतायदब्रवीद् त्वया च जानी जानीमो न च तद्वयं यदीदं शक्यमस्माभिर्नातुं न च सदोषवत् श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च युधिष्ठिर उवाच गृहादग्निश्च बोद्धव्य इति मां विदुरऽब्रवीत् पन्थाश्च वो न विदितः कश्चित्स्यादिति धर्मदीः जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत् विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया वैशम्पायन उवाच अष्टमेह निरोहिण्यां प्रयाताः पाल्गुणस्यते वारणावतमासाद्य च दतुर्शुनागरं जनम् इति श्रीमहाभारते आदिपर्वणि चतुर्गृहपर्वणि वारणावतगमने चतुश्चत्वारिंशदधिकशततमोऽध्यायः